अथ षट्चत्वारिंशः सर्गः हतान्मन्त्रिसुतान् बुद्ध्वा बाणरेण महात्मना रावणः संवृताकारश्चकारमतिमुत्तमा सविरूपाक्षयूपाक्षौ दुर्धरम् चैव राक्षसम् प्रघसम्भासकर्णम् च हनो मद्ग्रहणे व्यग्रान् वायुवेगसमान् युधि यातसेनाग्रगाः सर्वे महाबलपरिग्रहाः स बाजरथमातङ्गाः स कपिः शास्यतामिति यत्तैश्च खलु भाव्यम् स्यात्तमासाद्यवनालयम् कर्म चापि समाधेयम् देशकालाविरोधितम् न ह्यहम् सर्वथा तम् महद्भूतम् महाबलपरिग्रहम् महा वानरोऽयमिति ज्ञात्वा न हि मे मनः नैवाहम् तम् कपिम् मन्ये यथेयम् प्रस्तुता कथा भवेदिन्द्रेण वासृत्तमस्मदर्थम् तपो बलात् स नागयक्षगन्धर्वदेवासुरमहर्षयः युष्माव्यःप्रहितैः सह विनिर्जिताः तैरवश्यम् विधातव्यम् यलीकम् किञ्चिदेवनः तदेव नात्र सन्देहः प्रसह्य परिगृह्यता यातसेनाग्रगाः सर्वे महाबलपरिग्रहा स बाजरथमातङ्गाः स कपिः कपिर्धीरपराक्रमः दृष्टा वाली च सुग्रीवो जाम्बवांश्च महाबलः नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः नैव तेषाम् गतिर्भीमा न तेजो बलोत्साहो न रूपपरिकल्पनम् महत्सत्त्वमिदम् ज्ञेयम् कपि रूपम् व्यवस्थितम् कामम् लोकास्त्रयस्येन्द्राः ससुरासुरमानवाः भवतामग्रतस्थातुम् न पर्याप्ता रणाजिरे तथापि तु न यज्ञेन जयमाकाङ्क्षतारणे आत्मा रक्ष्यः प्रयत्नेन चञ्चला ते स्वामिवचनम् सर्वे प्रतिगृह्यमहौ जसः समुत्पेतुर्महावेगाहुता शसमते जसः रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपहिताबलैः ततस्तु ददृशुर्वीरादीप्यमानम् महाकपिम् रश्मिमन्तमिवोद्यन्तम् स्वतेजो रश्मिमालिनम् तोरणस्थम् महावेगम् महासत्त्वम् महाबलम् महामतिम् महोत्साहम् महाकायम् म् समीक्ष्यैव ते सर्वे दिक्षु सर्वाः स्ववस्थिताः तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः शिरस्युत्पलपत्राभादुर्धरेण निपातिताः सतैः पञ्चभिराविद्धः शरैः शिरसि वानरः उत्पपातनदण्ड्योम्नि दिशो दश विनादयन् ततस्तु दुर्धरो वीरः स रथः सज्जकार्मुकः महाबलः सकपिर्वारयामासतम् व्योम् निशरवर्षिणम् वृष्टिमन्तम् पयोदान्ते पयोदमिव मारुतः सदूरम् सहसोत्पत्य दुर्धरस्य रथे हरिः निपपातमहावेगो विद्युद्राशिर्गिराविव ततः भग्नाक्षकूबरं रथम् भग्नाक्षकूबरम् विहाय न्यपतद्भूमौ दृष्ट्वा निपतितम् भुवि तौ जातरोषौ सताभ्याम् सहसोत्प्रुत्यभिष्ठितो विमलेम्बरे मुद्गराभ्याम् महाबाहुर्वक्षस्यभिहतः कपिः तयोर्वेगवतोर्वेगम् निहत्य स महाबलः निपपात पुनर्भूमौ सुपर्ण इव वेगितः ससालवृक्षमासाद्य समुत्पाट्य च ततस्ताम् स्त्रीर्हताम् ज्ञात्वा वानरेण तरस्विना अभिपेदे महावेगः प्रहस्य प्रघसो बली भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान् एकतः कपिशार्दूलम् यशस्विन मम स्थितौ पट्टिशेन शिताग्रेण प्रघसः प्रत्यबोधयत् भासकर्णश्च शूलेन राक्षसः सताभ्याम् व्यक्षतैर्गात्रैरसृग्दिग्धतनूरुहः अभवद्वा नरः क्रुद्धो बालसूर्य समप्रभः समुत्पाट्य गिरे शृङ्गम् वीरो राक्षसौ कपिकुञ्जरः गिरिशृङ्गसु निष्पिष्टौ बभूवतुः ततस्तेष्वसन्नेषु सेनापतिषु पञ्चसु बलम् तदवशेषम् तु नाशयामास वानरः अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथैरथान् सकविर्नाशयामास सहस्राक्ष इवासुरान् हयैर्नागैस्तुरङ्गैश्च भग्नाक्षैश्च महारथैः हृतैश्च राक्षसैर्भूमि रुद्धमार्गा समम् ततः ततः कपिस्तान् वजिनीपतीन् रणे निहत्य वीरान् सबलान् तथैव वीरः परिगृह्य तोरणम् इत्यार्षे श्रीमद् आदिकाव्ये सुन्दरकाण्डे षट्चत्वारिंशः सर्गः